ब्रह्माण्डपुराणं मध्यभागम् अध्यायम् एय् ऋषिवंशवर्णनं सूत उवाच एवं प्रचासु सृष्टासु कश्यपेन महात्मना प्रदिष्टितासु सर्वासु चरासु स्थावरासु च अभिषिच्याधिपत्येषु तेषां मुख्यान् प्रजापतिः तथ क्रमेण राज्यानि आदेष्टुमुपचक्रमे द्विजानां विरुधां चैव नक्षत्राणां ग्रहैः सह यज्ञानां तपसां चैव सोमं राज्येभ्य बृहस्पतिं तु विश्वेषां ददा वङ्गिरसां पदीं भृगूणामधिपं चैव काव्यं राज्येभ्य सेचयत् आदित्यानां पुनर्विष्णुं वसूनामथ पावकं प्रजापदीनां दक्षं च मरुतामथवासवम् दैत्यानां अधराजानं प्रह्लादं दिदिनन्दनं नारायणं तु साध्यानां रुद्राणां च वृषध्वजं विप्रचित्तिं च राजानं दानवानां अधादिशद् अपां च वरुणं राज्ये राज्ञां वैश्रवणं तथा यक्षाणां राक्षसानां च पार्थिवानां धनस्य च वैवस्वतं पितॄणाञ्च यमं राज्येभ्यषेच यद् सर्वभूतपिशाचानागिरिशं शूलपाणिनं शैलानां हिमवन्तं च नदीनामधसागरं गन्धर्वाणामधिपतिं चक्रे चित्ररथं तथा उच्चैश्रवसमश्वानां राजानं चाभ्यषेचयत् मृगाणामधशार्दूलं गोवृषं च कगुद्मिनां पक्षिणामध सर्वेषां गरुडं पददाम्बरं गन्धानां मरुदां चैव भूतानां शरीरिणां समकालबलानां च वायुं बलवतां वरं सर्वेषां दंष्टृणां शेषं नागानां अथवा सुखिं सरीसृपाणां सर्पाणां पन्नगानां तक्षकम् सागराणां नाम नदीनां च मेखानां वर्षितस्य च आदित्यानामन्यतमं पर्जन्यमभिषिकृतवान् सर्वाप्सरोगणानां च कामदेवं तथा प्रभुं ऋतूनामधमासानामार्तवानां तथैव च यक्षाणां च विवक्षाणां मुहूर्तानां च पर्वणां कला काष्ठाप्रमाणानां गदेरयनयोस्तथा गणितस्याधयोगस्य चक्रे संवत्सरं प्रभुं प्रजापतेर् पूर्वस्यां दिशि विश्रुतम् पुत्रं नाम्ना सुधन्वानं राजानं सोऽभ्यसेचयद दक्षिणास्यां दिशि तथा कर्दमस्य प्रजापतेः पुत्रं शङ्खपदं नाम राजानं सोऽभ्यसेचयद पश्चिमस्यां दिशि तथा रचसः पुत्रमच्युतम् केुुमंदमहात्त्म चाभ्यषेचयत तथा हिण्य रोम अर्जन्य प्रजापते हे उदीच्यां दिशि दुर्धर्षपुत्रं राज्यभ्य सेचयत मनुष्याणमिपति चक्रे वस्वत मनु तैरियं पृथिवी सर्वाः सप्तद्वीपा सपत्थना यथा प्रदेशमद्यापि धर्मेण परिपाल्यते स्वायं भुवेंदरे पूर्वं ब्रह्मणा तेभिषेचिताः नृपाश्चैतेभिषिच्यन्ते मनवो ये भवन्ति वै मन्वन्तरेष्वतीतेषु गदाह्येतेषु पार्थिवाः एवमन्येऽभिषिच्यन्ते प्राप्ते मन्वन्तरे पुनः अतीतानागता सर्वे स्मृता मन्वन्तरेश्वराः राजसूयेऽभिषिकृतश्च पृधुरेभिर्नरोत्तमः वेददृष्टेन विधिना ह्यधिराजः प्रतापवान् येदानुत्पाद्यपुत्रां स्तु प्रजा सन्तानकारणात् पुनरेव पदिरीश्वरः कश्यपो चचार परमं तपः पुत्रौ गोत्रकरौ मह्यं भवेदामिति चिन्तयन् तस्य प्रधायमानस्य कश्यपश्य महात्मनः ब्रह्मणांशौ सुतौ पश्चात् प्रादुर्भूतौ महौ जसौ वत्सारश्चाशितश्चैव तावोभौ ब्रह्मवादना वत्सरान्निध्रुवो जज्ञे रेभ्यश्च सुखमायशाः रेभ्यस्य रेभ्यो विज्ञेयो निध्रुवस्य निबोधत च्यवनस्य सुकन्याया सुमेथाः समपद्यत निध्रुवस्य तुया पत्नी मादा वैकुण्डपायिराम् असि तस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत शाण्डिल्यानां वरश्रीमान् देवलस्सुमहायशाः निध्रुवा शाण्डिलारिभ्यास्त्रयः काश्यपाः वज्रिप्रभृतयो देवा देवास्तस्य प्रजास्विमाः चतुर्युगे त्वधिक्रान्ते मनोर्घ्य प्रभोहो प्रभोः अधावशिष्टे तस्मिं स्तुद्वापरे सम्प्रवर्तिते मरुतस्य नरिष्यं तस्तस्य पुत्रोद्धम किल राज्यवर्धनकस्तस्य सुधृतिस्तत्सुतो नरः केवलश्च ततस्त बंधु मन वेगवा बुधस्त तृणबिंदुर्मीपतिगमुखे राज तृतीय स बभुव तस्य चेलबिला कन्या लंबूषा गर्भसंभवा तस्द विश्रवास्तु वौलस्तकुलवर्धन बृहस्पतिबृहत्कर्तिर्द्वाचार्यस्तर्तिद कन्याोपये स ना वै देंवर्णि पुषोत्कलवत कैकस्यीं मालिनकन्यां तासां तु शृणुदप्रजाः ज्येष्ठं वैश्रवणं तस्य शुषुवे देववर्णिनी दिव्येन विधिना योक्तमर्षेण च श्रुतेन च राक्षसेन च रूपेण आसुरेण बलेन च त्रिपादं सुमहाकायं स्थूलशीर्षं महाहनुम् अष्टदंष्ट्रं हरिश्मश्रुं शङ्कुकर्णं विलोहितं ह्रस्वबाहुं प्रबाहुं च पिगलं सुद्विभीष्णं वैवर्तज्ञानसम्पन्नं सम्बुद्धं चैव सम्भवात् पिता दृष्ट्वा ब्रवीत्तं कुबेरोऽयमिति स्वयं कुत्सायां क्विति शब्दोऽयं शरीरं बैरमुच्यते कुबेरः कुशरीरत्वान्नाम्ना वैतेन सोऽकितः यस्माद्विश्रवसोपत्यं सादृश्याद्विश्रवा इव तस्माद्वैश्रवणो नाम नाम्ना तेन भविष्यति ऋद्ध्यां कुबेरो जनयद्विश्रुतं नलकुबरं रावणं कुम्भकर्णं च कन्यां शूर्पणकीं तथा विभीषणचुर्धांस्तु कैकस्य जनयत्सुधान् शंघुकर्ण दश्रीविंगूर्ध चतुष्प्रिशति भुजो महाका महाबल जातचनिभोद्रीलोहितग्रीवे चक्षसे नौजसाुक्त रूपेण चलें च सत्व बुद्धि सत्वबुद्धिजितैर्यक्षराक्षसैरेव रावणः विसर्गदारुणक्रूरो रावणो द्रावणस्तु सः हिरण्यकशिपुर्ह्यासि द्रावणपूर्वजन्मनि चतुर्युगानि राजाभूत्रयोदशस राक्षसः साः पञ्चकोट्यो वर्षाणां सङ्ख्यादासङ्ख्यया द्विजाः नियुतान्येकषष्टिं च शरदां गणितानि वै चैव सहस्राणि वर्षाणां वै स रावणः देवतानां ऋषीणां च घोरं कृत्वा प्रजागरम् त्रयदायुगे चतुर्विंशे रावणस्तपसः क्षयाद रामं दाशरथिं प्राप्य सगणः क्षयमीवान् महोदरप्रशस्तश्च महापार्श्वखरस्तथा पुष्पोत्कडायाः पुत्रास्ते कन्याकुम्भीनशी तथा त्रिशिरादूषणश्चैव विद्युज्जिह्वसराक्षसः कन्यानुपालिका चैव वाकायाः प्रसवस्मृतः इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दुरासदाः सर्व लबराशूरा पुत्रपौत्र सन्वता यक्षा चर्व पौलस्याचे चक्षसा आगस्त वैश्वाम क्रूराण ब्रह्म वेदाध्ययनशीला तपोव्रत निषेना तेषा मैडबिडो राजा पालस्त्यस्सव्यपिङ्गलः इतरे ये यज्ञजुषस्थे वैरक्षो गणाश्रयः यादुधाना ब्रह्मधाना वार्ताश्चैव दिवाचराः निशाचरगणास्तेषां चत्वारः कविभिस्मृताः पौलस्त्या नैरृताश्चैव आगस्थ्या कौशिकास्तथा इत्येताः सप्त तेषां वै जातयो राक्षसा तेषां रूपं प्रवक्ष्यामि स्वभाव्येन व्यवस्थितं वृक्ताक्षाः पिङ्गलाश्चैव महाकाया महोदराः अष्टदंष्ट्रा शङ्कुकर्णा ऊर्ध्वरोमाण एव च आकर्णा हरितस्याश्च मुञ्चधूम्रोर्ध्वमूर्धजाः स्थूलशीर्षासिताभाश्च ह्रस्वसग्धिप्रभाहवः ताम्रा स्यात् लम्बजिह्वोष्टा लम्बभ्रूस्थूलनासिकाः नीलाङ्गालोकितग्रीवा गम्भीराक्षा विभीषणाः महाघोरस्वराश्चैव विकटोद्बद्धपिण्डिकाः स्थूलाश्च तुङ्गनाशाश्च शिलासंखनना दृढाः दारुणापि जनाक्रूरा प्रायश्च क्लिष्टकर्मिणः सकुण्डलाङ्गदा पीडा मुकुडोष्णीषधारिणः विचित्रा भरणाश्चित्रा माल्यगन्धानुलेपनाः अन्नादा पिशितादाश्च पुरुषादाश्च ते स्मृताः राक्षसानां स्मृतं बुधैः न समास्ते बले बुद्धव्युद्धे माया कृते तदा पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्टृणः भूदा सर्पाः पिशाचाश्च सृमरा हस्तिनस्तथा वानरा किन्नराश्चेव वा। मा प्रागप्येदे परिक्रान्ता मया क्रोध वशान्वयाः अनपद्यक्रतुर्हि अस्मिन् स्मृतो वैवस्वदेन्तरे न तस्य वा ते जः संक्षिव्य च स्थितः प्रवक्ष्यामि तृतीयस्य प्रजापतेहे तस्य पत्न्यस्तु सुन्दर्यों दशैवासन्पदिव्रताः भद्राश्वस्य कृताज्ञां वै दशाक्षरसि सूनवः भद्राशूद्रा च शालभामलदा तथा बलाहला जसप्तैदाया जगोचपला स्मृताः तथा तामरसा चैव रत्नकूडा च चै तादृशः तत्र यो वंशकृच्चौ तस्य नाम मद्रायां जनयामासोमं पुत्रं यशस्विनं स्वर्भानुनागदे सूर्ये पदमाने दिवो महीं तमोऽभिभूते लोकेऽस्मिन् प्रभायेन प्रवर्तिता स्वस्थितेस्त्विति चोक्तो वै पदन्निकदिवाकरः ब्रह्मर्षेर्वचनास्तस्य नपपाद दिवो महीम् अत्रिश्रेष्ठानि गोत्राणि यश्चकारमहातपाः महातपाः धनं चैव सुरैर्यस्य प्रवर्तितं स ता सु जनयामास पुत्रानात्मसमानकान् दशतान्वयसुमहदा तपसा भाविधप्रभुः ्या त्रेया इति ख्यादा ऋषयो वेदपारगाः तेषां द्वौ ख्यादयशसौ ब्रह्मिष्ठौ सुमहौ जसौ दत्तो ह्यनुमदो ज्येष्ठो दुर्वासास्तस्य चानुजः यवीयसी सुधा तेषामबला ब्रह्मवादिनी आत्राप्युदा अत्राप्युदाहरन्दीमं श्लोकं पौराणिकाः पुरा अत्रेः पुत्रमहात्मानं शान्तात्मानमकल्मषं दत्तात्रेयं तनुं विष्णोः पुराणज्ञाः प्रचक्षते तस्य गोत्रान्वया जादाश्चत्वारः प्रथिदा भुवि श्या वाश्वामुद्गलाश्चैव वाग्भूतगगविस्थिराः ये ते त्रीणां तु चत्वार स्मृताः पक्षा महौजसः काश्यपो नारदश्चैव पर्वतो रुन्धति तथा जिरे मानसा ह्येदे रुधत्यास्तन्निबोधत नारदस्तु वसिष्ठाया रुन्धती प्रत्यपादयद ऊर्ध्वरे धा महातेजा दक्षशापात्तु नारदः पुरा देवासुरे तस्मिन् संग्रामे तारकामये अनावृष्ट्या हदे लोके व्यग्रेशस्ते सुरैः सह वसिष्ठ इष्टस्तपसा धीमाञ्जीवयामास वैप्रजाः अनेकफलमूलिन्यवषधीश्च प्रवर्तयन् तास्तेन जीवयामास कारुण्यादौषधेन सह अरुन्धत्याम् वसिष्ठस्तु शक्तिमुत्पादयत्सुतम् स्वाङ्गजनयच्छक्तिरदृश्यन्तां पराशरं काल्यां पराशरजज्ञे कृष्णद्वै पायनप्रभुः द्वै पायनादरण्यां पायना वै शुको जज्ञे गुणान्वितः उदपद्यन्तषडिमे पीवर्यां शुकसूनवः भूरिश्रभाः प्रभुः शम्भुकृष्णो गौरश्च पञ्चमः कन्याकीर्तिमदी योगमादा धृतव्रता जननी ब्रह्मदत्तस्य पत्नी सा त्वणुहस्य च स्वेधा पौराश्च श्यामधूम्राश्च चण्डिनः उष्मादा दारिकाश्चैव नीलाश्चैव पराशराः पराशराणामष्टौदे पक्षाः प्रोक्ता महात्मनाम् अध ऊर्ध्वनिबोधत्वमिन्द्रप्रमदिसम्भवं वसिष्ठस्य कपिञ्जल्यां कृताच्यामुदपद्यत कुणीरि यः समाख्याद इन्द्रप्रमदिरुच्यसे पृथोत्सुधायां शम्भुतपुत्रस्तस्या भवद्वसुः उपमन्युःसुतस्तस्य यस्य मेख्य मित्रावरुणयोश्चैव कुण्डिने याः ये कार्षेयास्तथा च अन्ये वसिष्ठानाम् अविश्रुताः यदे पक्षावसिष्ठानां स्मृता ह्येकादशैव इत्येदे ब्रह्मणपुत्रा मानसा अष्ट विश्रुताः भ्रातरसुमहाभागा येषां वंशा प्रतिष्ठिताः त्रीन लोकां स्त्रीलोकान्धारयि गणसंकुलाषा पुत्रस् पौत्राश्चोधसहस्रश व्यास्तत्रोका सूर्य गभस्ति ब्रह्माडे महापुराणे वायु प्रोक् मध्यभागे तृतीय उपोद्धातपादे ऋषिवंशवर्णनं नामाष्टमोऽध्यायः ओ